तम् प्रजाः प्रतिमोदन्त्यः सर्वाः प्रत्युद्गतास्तदा निपाप्मानम् महात्मानम् दिवौ कसयिवेश्वरम् सुचिराय मनुष्येन्द्रो नगरीम् पुण्यलक्षणाम् विवेश सहितस्तेन वसिष्ठेन महर्षिणा ददृशुस्तम् महीपालमयोध्यावासिनो जनाः पुरोहितेन सहितम् दिवाकरमिवोदितम् सचताम् पूरयामास वरः अयोध्याम् व्योमशीतांशुः शरत्कालयि वोदितः संसिक्तमृष्टपन्थानम् पताका ध्वजशोभितम् मनः प्रह्लादयामास तस्य तत् पुरमुत्तमम् तुष्टपुष्ट जना अशोभत तदातेन तेन वामरावती।